एवदावद् दशकम् सुदर्शनम् शापविमोचनम् इति त्वयिरसाकुलम् रमितवल्लभे वल्लवा कदा विपुरमम्बिका कमितुरम्बिका कानने समेत्य भवता समम् निशिनिषेव्य दिव्योत्सवम् सुखम् सुषुपुरग्रसेत् प्रजबमुग्रनागस्तदा समुन्मुखमतोन्मुखैर् अभिहितेऽपि तस्मिन् बलात् अमुञ्चदि भवत्पदे न्यपति पाहि पाकीतिथै तदा खलु पदा भवान् समुपगम्य पस्पर्शतम् बभौ स च निजाम् तनुम् सुदर्शनधरप्रभो ननु सुदर्शनाख्योऽस्म्यहम् मुनीन् क्वचितपाहसम् तैहमाव्यदुर्वाहसम् भवत्पदसमर्पणात् अमलताम् गतोऽस्मीत्यसौ स्तुवन्तिजपदम् ययौ व्रजपतम् च कदापि खलु सीरिणाम् विहरदि त्वयि स्त्रीजनै जहारदनदानुघ सखिलसङ्कसूटो बलाम् मदीद्रतमनुद्रुतस्तमतमुक्त नारीजनम् रुरोजितशिरोमणिम् हलभृते च तस्यादथा जिनेषु च सुवृज्जनै सगवनेषु लीलापरम् मनोभव मनोहरम् रसित वेणुनादामृतम् भवन्तमरीदृशाम् अमृतपारणादायिनम् विचिन्त्य किमुना लपन् विरहता पिता गोपिकाम् भोजराजभृतकस्त्वतः कश्चित् कष्टदुष्टपदृष्टिरृष्ट निष्ठुराकृतिरपष्टुनिनाद तिष्ठते स्म भवते वृक्षरूपे शाक्वरोत जगति तृतीहारी मूर्तिमेष भृगतिम् प्रददान पङ्क्तिमाशु परिगूर्ण्यपशूनाम् छन्दसा निधिमवापभवन्तम् तुङ्गशृङ्गमुखमाश्वबियन्तम् सङ्क्रहय्यरबसादबियन्तम् भद्ररूपमपि दैत्यमभद्रम् मर्दयन् अमदयः सुरलोकम् चित्रमद्य भगवन् वृषगादात् स्तूर्तिराजनि वृषस्थितिरुर्व्यान् वर्तते च वृषचेतसि भूयान् मोदयित्यभिनुतोऽसि सुरैस्त्वं औषकाणि परिदावद दूरं दूरम् वीक्षतामयमिकोक्षविभेदि इत्थमातः कितैः सखगोपैर्गेखगस्त्वमवदपुरेषा बजगोपा बजगोपाला प्या मुरारी नन्दला